अनलायाः शुकी पुत्री कङ्कस्तु सुरसा सुतः अरुणस्य भार्या श्येणी तु वीर्यवन्तम् जटायुषम् वीर्य सुरसा जनयन्नागान् कद्रूः पुत्रांस्तु पन्नगान् द्वौ पुत्रौ सुरसा जनयत्सर्पान् क्षतमेकशिरोधरान् सुरसा कन्यका जातास्तिस्रः कमललोचनाः वनस्पतीनां वृक्षाणां वेरुधाञ्च मातरः अनला रुहा प्रोक्ते वीरुधाञ्चैव ताः स्मृताः गृह्णन्ति विना पुष्पं फलानि तरवः पृथक् अनला सुतास्ते विज्ञेयाः ताने पुष्पैः फलग्रहान् वृक्षान् रुहायाः प्रसवान् विभो लता गुल्मानि वल् यश्च त्वक्सारतृणजातयः स्युरत्र वंशः समाप्यते इत्येष सर्वभूतानाम् महताम् अनुजाधिप प्रभवः कीर्तितः सम्यङ् मया मतिमताम् वर यम् श्रुत्वा पुरुषः सम्यङ्मुक्तो भवति पाप्मनः सर्वज्ञताम् च लभते गतिमग्र्याञ्च विन्दति इति श्रीमन्महाभारते आदिपर्वणि सम्भवपर्वणि षट्षष्टितमोऽध्यायः